मुद्गलपुराणं खण्डं सिक्स् विकटचरितम् अध्यायं तर्टि सवेन् गुणेशावतारवर्णनम् श्रीगणेशाय नमः शक्तय ऊचुः विकटस्य चमाहात्म्यं श्रुत्वा शक्ते वयं परं हर्षं प्राप्ताविशेषेण योगामृदमयं किल तथापि देवितृप्तिं न प्रयामो रसवर्धिनीं कथां श्रुत्वा पुनस्तां च वद वैघ्नेश्वरीं परां विकटेन जगन्मातरवतारा धृताः परे तेषां सङ्क्षेपदो ब्रूहि चरित्रमवतारजम् आदिशक्रिरुवाच गण्डकीनगरीपालश्चक्रपाणिर्नृपो भवत उग्रापत्नी च तस्यास्येत्पादिव्रत्य गुणान्विता धर्मशीलो वदान्यश्च राजानीधिपरायणः देवविप्रातिधिप्रेप्सु पञ्चयज्ञकरो भवद जित्वा भूमण्डलं सर्वं चकार भुभुजे सम्पत्तिम्बुभुजे देवा मान्यां विशेषतः अपत्यं जायते यद्यत्तन्नश्यदि तत्क्षणाद् वान्द्यदोषसमयुक्तौ दम्पती संबूवधुः तदर्थं व्रतदानादींश्चकारविधिसंयुधः तथापि सन्ततिं राजा न प्रापरमेश्वराद तदो राज्यममात्येषु निक्षिप्या भवदुद्यतः वनं गन्तुं महादेव्यशस्त्रीकशोकसंयुधः यदस्मिन्नन्तरे तत्र शौनको मुनिसप्तमः यदृच्छया ययौ यो योगी तम् नृपम् विचरन् परः भानोस्तेनोपदिष्टम् सव्रतम् चक्रे नराधिपः तुष्टस्तेन रविः स्वप्ने राज्ञाम् गर्भम् समादधे सूर्यते जो युधम् गर्भं न क्षमासं धर्तुम् दाह युतो ग्रास समुद्रे तम् तदोत्यजद तत्र पुत्रो बभूवा वित्रिनेत्रश्चक्रधारकः जलं संशोषयामास समुद्रस्य विशेषतः ततो ब्राह्मणरूपेण चक्रपाणिं समाययौ समुद्रपदयामास वृत्तान्तं पुत्रसंभवं दत्वा पुत्रं समुद्रस्त्वन्तर्दधे हर्षितो भवद नृपः सर्वजनैः सिन्धुर्नाम्ना द्विधाय्ः पुत्रकृतस्तस्य विशेषतः अपारवीर्ययुक्तत्वात्सोऽपि बलयुधोऽभवत् आज्ञां गृह्य वनायैव तपोर्थं मार्गमध्यगः काव्यसौरं ददौ मन्त्रं विधियुक्तं तु एकपादमधिष्ठाय तताप तप उत्तमम् निराहारस्वभावेन तोषयामास्यपम् द्विसहस्रेषु वर्षेषु सविता वरदोऽ भवद त्रैलोक्यविभवम् तस्मै ददावमृतपानगम् त्रिगुणाय हीनभावेन तिष्ठति ब्रह्म शास्त्रगं देहं धृत्वा मृतं सोऽपि निष्कास्य त्वाम् हनिष्यति येवमुक्त्वा स्वभक्रन्दु सवितान्तर्दथे तदा हर्षयुक्तस्वयं सिन्धुस्वगृहं प्रतिपद्यत पितृभ्यां मानितोऽत्यन्तं तेजसा तेजसायुधः तस्मै राज्यं ददौ राजा शस्त्रीको वनगो भवत् तदस्मिन् दुर्धरां जिज्ञे सप्तद्वीपवदीं परां वरदानबलेनैवं ज्ञात्वा दैत्यास्तमाययुः शुम्भोदिशुम्भवृत्रौ च कमलशङ्ख एव च कोलासुरदयश्चान्ये तदा ज्ञागाबभूविरे तैर्युदो देवराजेन्द्रान् जिज्ञे शम्भुमुखान् किल पपालशङ्करसद्यस्त्यक्त्वा कैलासमात्मनः विष्णुं सूर्यं विधीन्द्रादीन् सङ्गृह्य ययौ पारागारे सचिक्षेप चिक्षेप देवेन्द्रान् बलसंयुधः एवं जित्वा त्रिलोपान् राज्यं चक्रे महासुरः दैत्येन्द्रान् स्थापयामास देवस्थानेषु सर्वतः तदो बहुगते काले क्रोधयुक्तो महासुरः देवतीर्थादिकान् भुङ्वा दैत्यकर्मत्वलोपयत् स्वकीयां प्रतिमां कृत्वा स्थापयद्भूमिमण्डले देशे देशे पुरे ग्रामे पूजयतां स मानवैः तदोहा कृतं सर्वैर् वर्णाश्रमयुदयजनैः स्वाहा स्वधादिकं कर्मनष्टं सर्वत्र शक्तयः अधुना तद्वधोपायं वदामि शृणुदप्रियाः शङ्करो गणसंयुक्तस्त्रिसन्ध्याक्षेत्रमागमद गौतमाद्यायुर्युदस्तत्र वा संशस्त्रीक आकरोद ध्यानमास्ताय विघ्नेशमभजद्भक्तिसंयुधः एकदा संशयाविष्टा पार्वतीतं प्रणम्य च जगादशङ्करं देव्यो विनयेन समन्विता पार्वत्युवा ईशस्त्वं सर्वदेवानां तेनेशो विद्यते न च तेनेषो वेदवादेषु कथितोऽसि महेश्वर तथाभिज्ञानसंयुक्तो भजस्ये कं विशेषतः वदमां मां पादपद्मस्य दासीं संशयसंयुता शिव उवाच अनीशाश्चैव देवेशि ईशा येन विनिर्मिताः तं गणेशं भजाम्येव भक्त्या ब्रह्मपदिं सदा अनीशश्च गकारो नकार ईशमयस्मृतः तयो स्वामी न पश्य वेदे शुचिस्मिते तस्य तद्वचनं श्रुत्वा विनयान्विता। जगाद तस्य प्राप्त्यर्थं वचनं शङ्करं प्रति पार्वत्युवाच एतादृशं गणेशं चेन्न जानामि कदाचन प्राप्त्यर्थं वदमुख्यं मे चोपाह्यं साधयाम्यहम् शिव उवाच एकाक्षरं गृहानत्वं सविधिं च तपः कुरु ज्ञात्वा गजाननं देवं ततःसिद्धिमवाप्स्यसि एवमुक्त्वा ददौ तस्यै मन्द्रं परं तं प्रणम्य ययौ देवी लेखनाद्रिं मनोहरम् अवायुभक् क्षणेनैव तपस्साध्यानशालिना तया सम्राधितो ढुण्ढिर्वरदश्च बभूवः ययौ वर्ष सदे देवीं वरं याचे दिसोऽब्रवीद तया सं देव्या पुत्रो मे भव विघ्नप तत्र ते सेवनं नाथ करिष्यामि विशेषतः मातापिता भविष्यावो बन्धहीनौ सुदेत्वयि तथेति पार्वतीं दत्त्वा वरं स्वोऽन्तर्हितो भवद देवी विघ्नेश्वरं तत्र स्थापयामास विप्रपैः पूजयित्वा गणेशानं ययौ शंकरं शङ्करं तदः वृत्तान्तं कथयामास सोऽपि भवद तदसा तन्मना जादा सस्मारवरदं प्रभुं सर्वत्र गणराजं तं ददर्श भाग्यगौरवाद तदो भाद्रपदे कृत्वा मूर्तिं पूजः शङ्करेण युता देवी मध्याह्ने शुक्लपक्षगे चतुर्ध्यां सोमवारे सचेतना सचेतनाभवन्मूर्तिर्विकटस्य वरप्रदा तेजसाधर्षितौ देवौ किञ्चिद्द्रष्टुं नश्येकदुः सुतस्ताभ्यां ततः सौम्यतेजो युक्तो बभूवः शिवो ददर्शतं तत्र षड्भुजं शशिसन्निभं जादकर्मादिकं सर्वं चक्रदुर्ब्राह्मणैः परौ एकादशदिने नाम गुणेश इति चक्रिरे द्विजाशिवौ हर्षयुधौ पूजयामासदुर्द्विजान् ॐ तत्सदि श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्म महापुराणे विगडजरिते गुणेशातारवर्णनं नाम सप्तत्रिंशत्तमोऽध्यायः Oh